महावाक्यरत्नावले एकादशं प्रकरणम् अथ सार्धान्तिक अष्टविधिस्वरूपवाक्येषु नानालिङ्गस्वरूपवाक्यानि द्वात्रिंशत् श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः यो वै भूमा तत्सुखम् यो वै भूमा तदमृतम् नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्तत् नामधेयकम् सत्यस्य सत्यमिति प्राणा वै सत्यम् तेषामेव सत्यम् रातेर्धातुः परायणम् सपर्यगाुक्रम् अकायम् अव्रणम् अस्नाविरगं शुद्धम्पापविद्धम् प्रणवो ह्य परं ब्रह्म प्रणवश्च परः स्मृतः न निरोधो न बद्धो न च न मुमक्षुर्न वै मुक्त इत्येषा परमार्थता अखण्डैकरसं शास्त्रम् अखण्डैकरसात्रयी अखण्डैकरसौ देह अखण्डैकरसं मनः अखण्डैकरसंसूत्रम् अखण्डैकरसौ विराट् अखण्डैकरसा विद्यायखण्डैकरसोऽव्ययः अखण्डैकरसंगोप्यम् अखण्डैकरसः शशी अखण्डैकरसं क्षेत्रम् अखण्डैकरसा क्षमा अखण्डैकरसस्तारा अखण्डैकरसौरविः अखण्डयकरसो ज्ञाता अखण्डयकरसा स्थितिः अखण्डयकरसा माता अखण्डयकरसः पिता अखण्डयकरसौ राजा अखण्डयकरसं पुरम् अखण्डैकरसं तारम् अखण्डैकरसौ जपः सर्ववर्जितचिन्मात्रं त्वत्तामत्तान चिन्मयम् आदिरन्तं च चिन्मात्रं, चिन्मात्रं गुरुशिष्यादि चिन्मयम् दृग्दृश्यं यदि चिन्मात्रम् अस्ति चेच्चिन्मयं सदा सर्वाश्चर्यं च च च च च च च च च अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः देहत्रयविहेनत्वात् कालत्रयविवर्जनात् जीवत्रयगुणाभावात् तापत्रयविवर्जनात् लोकत्रयवेनत्वात्सर्वमात्मैति शासनात् चित्ताभावाच्चिन्तनीयं देहाभावाज्जरा न च पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया पादा हस्ता न च मृत्युर्नास्ति जनाभावाद् बुद्ध्यभावात् सुखादिकम् इति सार्धान्तिकनालिङ्गस्वरूपवाक्यानि द्वात्रिंशत् एकादशम् प्रकरणम् समाप्तम्